मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं टेन् नानाब्रह्माण्डवर्णनं श्रीगणेशाय नमः पार्वत्युवाच श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकं कीदृशोऽयं महाभाग तन्मे कथय शङ्कर शिव उवाच पञ्चकोटिप्रविष्टारे योजनानां समन्ततः तस्य देहे च भूतानि स्थावराणि चराणि च संस्थितानि च सर्वाणि भुवनानि चतुर्दश तत्तेहं सम्प्रवक्ष्यामि समाहितमनाशृणु पादयोस्तस्य पादालम् गुल्फे तस्य रसातलम् पार्ष्ण्योर्महातलम् तस्य जङ्कयोश्च तलातलम् सुतलम् जानुभागेश्य वितलम् तूरुमण्डले अतलम् कडिसन्धौ कट्याम्भूलोकसंस्थितिः नाभौ तस्य भुवर्लोकस्वर्लोकश्च हृदि स्थितः कंठेवै, जनो लोको मुखे स्थितः तपो लोको ललाटे लो च एतावद्देहरूपो वै विराट् स पुरुषो महान् सहस्र सहस्राननपादवान् सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः सर्वत्र व्याप्यभावेन स्थितोस् सौ परमेश्वरः मर्गेष्वमृदभोक्ता च स्वप्रकाशेन वर्तते तस्यान्तरे रूपं नाम्ना हैरण्यगर्भकं एतादृशं तथा स्वप्नं विश्वरूपं विराजति बहिर्वैश्वानरश्चायं जाग्रद्वैराडसंज्ञरण्यगर्भकोशस्तस्वप्नवैराडधारकः उभयो समभावेन बाह्यान्तरसरूपतः ईश्वरो नाम वैराडसुषुप्तेर्धारको बभौ ध यराड्रूप कथिथुदय यदेशु प्रवर्तते अभिनापत्तिपभावरां तै चराचरमयी परा विराडज्ञानभावेनावृतस्तेन तपः कृतं यकाक्षरविधानेन गणेशं सन्तद्धौ हृदि सोतपत्तप उग्रं च दिव्यवर्षसहस्रकं तपसाध्यानभावेन प्रत्यक्षो गणपो भवत बोधयामास तं देवो वरं ब्रूहीदि सोऽब्रवीद गणेशं सहसा दृष्ट्वा पादयोः प्रणनामदं धन्यं जन्मतपो मेद्य धन्यं ज्ञानं वपुश्च दृक धन्यामे सम्पदो देव त्वदङ्घ्रियुगदर्शनाद इत्युक्त्वा स्तो दुमारेभे गणेशं ब्रह्मनायकं वाचा स्पष्टया हृष्टो भगवान् विश्वधारकः विराडुवाच नमस्ते गणनाधाय गणानां पदये नमः विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः सिद्धि सिद्धिबुद्धिपदे तुभ्यं नानासिद्धिप्रदायिने नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे मनोवागतिभूताय योगिनां हृदिवासिने नानावतारकर्त्रे च भक्तः संरक्षकाय ते, ते नमो नमो महेशाय शिवाय शिवदायिने सर्वत्र समभावाय विष्णवे प्रभविष्णवे तेजोराशिपदे तुभ्यम् भानवेते नमो नमः नानामाय प्रभेदात्मशक्तये शक्तिरूपिणे स्रष्ट्रे पात्रे जहर्त्रे चराचरमयाय च सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः मायिभ्यो मोहदात्रे च माया धारायते नमः गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः नाना अदो मयि गणेशान् कृपयानुग्रहं कुरु यदि स्तुत्वा गणेशानां मौनवानभवत् स्वयम् वैराढः पुरुषस्तत्र कृताञ्जलिपुटःस्थितः भगवां स्तम् गणेशान् ऊचिवान्भक्तिभाविदः वरं वर यदास्यामि शङ्गाम् मा कुरु विश्वप इदम् त्वया कृतं स्तोत्रम् मम प्रीतिकरम् भवेत् यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति यं यं चिन्तयदे कामं तं तं दास्यामि वाञ्छितं भुक्तिमुक्तिप्रतं भावि पठनाश्रवणादपि इत्युक्तवन्तं गणनाधमाद्यं वैराडदेवः प्रणनाम वै भावेन युक्तो वचनं जगाद हृष्टस्वयं विघ्नहरं प्रभुं च वैराट उवाच यदि तुष्टोऽसि देवेश यदि देयो वरो महान तव भक्तिं दृढां देहि मोहो विनश्यति अतुलं सर्जनं सृष्टेः पालनं हरणं तथा करोमि त्वत्प्रसादेन भक्तेभ्यो भुक्ति मुक्ृद ऐश्वर्यमतुलं देहि गजाननमहाप्रभो यं यमिच्छामि तत्सर्वं सिद्ध्यदु त्वत्प्रसादः शिव उवाच तधे दिवचनं चोक्त्वा गणेशोन्तरधीयत विराट् हर्षेण संयुक्तो गणेशं हृद्य भावयद एवं देवि च सर्वत्र नानाण्डेष्व स्थितैः परैः वैराडैस्तैः कृदं पूर्णं गणेश तप तेन सर्वे महात्मानस्वस्वकर्मणि संस्थिताः वरदानेन भगवन्तः सनातनाः अनन्दानि प्रजानि हि शक्यते वक्तुं केनापि हे विनातानि यथायथम् सततं गणनाथोऽपि न सङ्ख्यातुं प्रवर्तते गणनाशब्दशास्त्रेषु यावदीह्यधिकं ततः अधः केनापि सङ्ख्यानं न कृतं वेदवादिना अनन्तानि महाण्डानि ज्ञातव्यानि जगन्मयी एवं प्रभावयुक्तोऽसौ हृदये मे प्रवर्तते गणेशोध्यानलोभी च भक्देशो भक्तवत्सलः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः ओ